मङ्गलं चेत् सपाताय शम्भवे मङ्गलं सर्वलोकेश्वराय मङ्गलं शिवगान्दरीशाय दे मङ्गलं शीतकटशेखर वम्यमे दत्त गोठे सलीशये उत्तम सुगुणदव वाहि विजय उपमुखशिनह Yeah uh -huh. शरणं नास्ति त्वमेव शरणं मम तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरा अनायासेन सायुज्यं अनायासेन सायुज्यं विना दैन्येन जीवनो देहि मे देहि मे कृपया शम्भो देहि मे कृपया शम्भो वै भक्तिं अचञ्चल करचरणकृतं वा कायजं कर्मजं वा करचरणकृतं वायज कर्मजौ श्रवणनयनजौ वा मानजो वापराधौ विहितं अविहितं वा सर्वमेतत्क्षम जय जय गरुणाब्धे शिव शिव गरुणाब्ध श्री महारादेव शम्बोध हर हर नमः पार्वती पार्वतीपदये हर हर महादे तिरुचित्रं बलं शिवचिदम्बरं नमः शिवकाम्य जगदम्बिके श्यामणापीठनिलये मीनाङ्गी